तम् चैनम् भक्तियोगम् द्रडयितुमयि मेत्साध्यमारोग्यमायुर्दृष्ट्या तत्रापि सेव्यम् तव चरणमहो भेषजा एव दुग्धम् मार्कण्डे यो हि पूर्वम् गणकनिगदि दद्वादशाब्दायुरुच्चैः सेवित्वा वत्सरम् त्वाम् तव भटनि वहे द्रावयामास